अथ पञ्चचत्वारिंशोऽध्यायः सौतिरुवाच एतस्मिन्नेव काले तु जरत्कारुर्महातपाः चचारपृथिवीम् कृत्स्नाम् यत्रसायं सायङ्गृहो मुनिः चरन् दीक्षाम् महातेजादुश्चरामकृताद्मभिः तीर्थेष्वाप्लवनम् कृत्वा पुण्येषु विचचारः वायुभक्षो निराहारः सुष्यन्नहर हर्मुनिः सददर्श पितॄन् गर्ते लम्बमानानधोमुखान् एकतन्त्ववशिष्टम् वैवीरणस्तम्बमाश्रितान् तन्तन्तुम् च शनेराखुमाददानम् विलेशयम् निराहारान्कृसान् दीनान् गर्ते स्वत्राणमिच्छतः उपसृत्य सतान् के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः दुर्बलम् खादितेर्मूलैराखुना बिलवासिना वीरणस्तम्बके मूलम् यदप्येकमिह मूलं तदप्ययम् शनैराखुरा दत्ते दशनैः सितैः छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादि वा ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः तस्य मे दुःखमुत्पन्नम् दृष्ट्वा युष्मानधोमुखान् कृच्छ्रमापदमापन्नान् प्रियम् किम् करवाणि वः तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः अर्धेन वापि निस्तर्तुमापदम् ब्रूतमाचिरम् अथवापि समग्रेण तरन्तु तपसा भवन्तः सर्व एवेह काममेहं विधीयताम् पितर ऊचुः वृद्धो भवान ब्रह्मचारी यो नस्त्रातुमिहेच्छसि न तु सक्यते शक्यते तद्व्यपोहितुम् अस्ति नस्तात् तपसः फलम् प्रवदताम् वरा सन्तानप्रक्षयाद्ब्रह्मन् पतामनिरयेषु चौ सन्तानम् हि परो धर्म एवमाह पितामहः लम्बतामिह नस्तात नज्ञानं ज्ञानं प्रतिभाति वै येनजानीमो लोके विख्यातपौरुषं वृद्धो भवान्महाभागो महाभागो नः सोच्यान्सुदुःखितान्